श्रीहरये नमः अत एकोनविंशोऽध्यायः श्रीशुक उवाच किं पुरुषे वर्षे भगवन्तम् आदिपुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं, रामं तच्चरण सन्निकर्षाभिरथ परमभागवतो हनुमान सः किं पुरुषे अभिरथ भक् तिरुपास्ते आर्ष्टिशेणेन सह गन्धर्वै अनुगीयमानं परमकल्याणीं भर्द्रुभगवत्कथां समुपशृणोति स्वयं चेदं गायते ॐ नमो भगवते उत्तमश्लोकाय नमः आर्यलक्षणशीलव्रताय नमः उपसिषितात्मन उपसित लोकाय नमः साधुवादनिकषणाय नमो ब्रह्मण्यदेवाय महापुरुषाय महाराजाय नम यधि यत्यद्विशद्धानुभवमात्रमेकं स तेजसो ध्वस्तगुणव्यवस्तं प्रत्यक्प्रशान्तं सुधियोपलम्बनं यनामरूपं निरहं प्रभद्ये मर्त्यावतारस्त्विकमर्त्यशिक्षणम् रक्षोवधायैव न केवलम् विभोः कुतोऽन्यथाद्रमथक् सेता कृतानि व्यसनानीश्वरस्य आत्मात्मवतां सुहृतं सक्तस्त्रिलोक्यां भगवान् वासुदेवः नस्त्रीकृतं कस्मलं कस्मलमस्नुवीत नलक्ष्मणं चापि विहातुमर्हति न नजन्मनूनं नूनं महतो न सौभगं ना ृतिस्तोषहेतुः धैर्यविसृष्टानपि नो बनौकसकारसख्ये पदलक्ष्मणाग्रजः सुरो, सुरो वाप्यतवा नरो नरक् सर्वात्मनायक् सुकृतज्ञमुत्तमं भजते रामं मनुजाकृतिं हरिं य उत्तरानयत् कोशलान् दिवमिति भगवान् नरनारायणाख्य आकल्पान्तमुपचित धर्मज्ञानवैराग्य ऐश्वर्य उपसमवुपरात्मावुपलम्भनम् अनुग्रहाय आत्मवताम् अनुकम्पयो तपो व्यक्तगतिश्चरते तं भगवान्नारतो वर्णाश्रमवदिभिर् भारतीभिर्प्राजिभिर्भगवत् प्रोक्ताभ्यां सांख्यो घाभ्यां भगवत्तनुभावोपवर्णनं सावर्णेहम् उपदेक्ष्यमाणस् परमभक्तिभावेन उपसरति इदं चाभिगृणाति ॐ नमो भगवते उपसमशीलाय उपरतानात्मयाय नमो किञ्चन वित्ताय ऋषिवृषभाय नरनारायणाय परमहंस परमगुरवे आत्मारामाधिपदये नमो नमयति गायन्ति चेतं कर्तास्य सर्गादिषु यो न बध्यते न हन्यते देहतो विदैहिकैः द्रष्टुर्न दृक्यस्य गुणैर्विदूष्यते तस्मै नमो सक्तविविक्तसाक्षिणे इदं हि योगेश्वरयोगनैपुणं हिरण्यगर्भो भगवान् जगातयेत् यतन्तकाले त्वयि निर्गुणे मनो भक्त्या तदीदोर्जितदुष्कलेवरः यदैः कामूष्मिककामलम् पठः सु तेषु दारेषु धनेषु चिन्तयन् सङ्केतविद्वान् कलेवराद्ययात् यस्तस्य यत्नश्रमय केवलं तन्न प्रभो कुकलेवरार्पिताम् त्वन्मायय अहं मम तामधोक्षज भिन्द्यामयेन सुवयं सुदुर्भितां विधेहिकं त्वयि न स्वभावमिति भारतेऽप्यस्मिन् वर्षे सरिश्चैलाः देवगिरिरुष्यमुखश्रीशैलो वेङ्कटो महेन्द्रो वारिधारो विन्त्यशक्तिमान् ऋषगिरिः पारियात्रो द्रोणश्चित्रकूटो गोवर्धनोरैवतकुपोनीलो गोकामुक इन्द्रकील निदम्बप्रभवानदानद्यश्च सन्ति असङ्ख्याताः एतासामपो भारत्य प्रजानामभिरेव पुनन्तीनामात्मना च उपस्पृशन्ति चन्द्रवसाम्रवर्णी अवटोधान् कृतमाला वैहायसी कावेरी वेणीपयस्विनीशर्करा वर्था तुङ्गभद्रा कृष्णा वेण्या भीमरती सिन्धुरन्धस्सोणश्च नधौ महानदी भेतस्मृतिर्षिकुल्या त्रसामा कौशिकी मन्दाकिनी यमुना सरस्वती तृषद्वती गोमती सरयू रोधस्वती सप्तवती सुषोमान् स धतृश्चन्द्रभागामरुद्वृधा वितस्ता असिग्ने विश्वेति महानद्यः अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभिशुक्ललोहित कृष्णवर्णेन स्वारब्धेन कर्मणा दिव्यमानुष नारकगतयो भक्वय आत्मन आनुपूर्व्येण सर्वा ह्येव सर्वेषां विधीयन्ते यथा वर्णविधानम् अबवर्कश्चापि भवति योऽसौ भगवति सर्वभूतात्मनि अनात्मये अनिकृते अनिलयेन परमात्मनि वासुदेवे अनन्यनिमित्तभक्तियोगलक्षणो नानागतिनिमित्ता विद्या क्रान्तिरन्धनद्वारेण यथा हि महापुरुषपुरुषप्रसङ्गः एतदेव हि देवा खायन्तीम् अखो अमीषां किमकारि शोभनं प्रसन्न येषां स्विधुतस्वयं हरिहे यैर्जन्म लब्धं नृषुभारदाजिरे मुगुन्तसेवौ किं दुष्करैर्न क्रजुविष्टपोव्रतैर्दानातिभिर्वाद्युजयेन पल्गुणा न ना यत्र नारायणपादपङ्कच स्मृतिः प्रमुष्टादिशय इन्द्रियोत्सवात् कल्पायुषां स्थान क्षणेन मर्त्येन कृतं मनस्विनः सन्धस्य संयाद्य साधवो भागवतास्तदाश्रयाः न यत्र प्राप्ता नृजातिं द्विहये स जन्तवो ज्ञानक्रिया द्रव्यकलापसम्प्रथां न वैयतेरन्न पुनर्भवायते भूयो वनौकायिव यान्ति बन्धनं यै श्रद्धया बर्हिषिभागे सोभवेर्निरुप्तमिष्टं विति मन्त्रवस्तुतः एकपृथङ्नापभि गघ्नादिपूर्णः स्वयमाशिषां प्रभुः सत्यं दिशत्यर्थितमर्तितो नृणां नैवार्थधो यत्पुनरर्थितायतः स्वयं वितत्ते भजतामनिच्छताम् इच्छाभिधानं निजपाधपल्लवं यत्यत्र न स्वर्गसुखावशेषितं सुष्ठस्य सूक्तस्य कृतस्य शोभनम् तेना जनाभे स्मृतिमज्जन्म न स्यात् वर्षे हरिर्यद्मजतां सन्तनोती श्रीशुक उवाच जम्बुद्वीपस्य च राजन् उभद्वीपान् अष्टौ हैक उपदिशन्ते सगरात्मजै अस्मान्वेषण इमाम् महीं परिदो निगणद्भिः उपकल्पितान् तद्यथा स्वर्णप्रस्तच्छन्द्रशुक्लन् आवर्तनो रमणकोमन्धरहरिणान् पांचत्सिंहमलोलङ्के दी एवं तव भारतोत्तमजम्बुद्विप वर्षविभागो यतोपदेशम् उपवर्णित इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्दे जम्बूद्विपवर्णनं नाम एकोनविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहराजके जय